नमो नमः स्वागतं सर्वेषां नमस्कारः नमो नमः सर्वेषां स्वागतम् अस्तु आरम्भं कुर्मः राधा भगिनी भवती अद्यदिने वदति वा प्रार्थना वदतु कृपया सरस्वती नमस्तुभ्यं वरदे कामरूपिणी रम्भम् करिष्यामि सिद्धिर्भवतु मे सदा ॐ सहना भवतु सहनौ भुनक्तु सह वीर्यम् करवावहै तेजस्विनावधितमस्तु माविद्विषावहै ॐ शान्ति शान्तिशान्तिः ॐ शान्ति नमो नमः धन्यवादाः नमो नमः नमस्कारः अवश्य महोदय कथमस्ति भवान् नमस्कारः कथमस्ति अस्तु अस्तु स्वास्थ्यं रक्षतु महोदय परन्तु अद्यदिने भवान् आगतः मम सन्तोषस्य विषयः बहु सभाषा धन्य अस्तु आरम्भं करो अद्यदिने किं पठनम् इति विषयः पश्यन्तु तत्र प्रसंगः वयं द्वितीया विभक्ति समापितवन्तः अधुना गीतोपदेशप्रसङ्गः इति अस्ति यदा भवन्तः स्मरन्ति चेत् तत्र तस्मात् प्राक् अस्माकं पुस्तके संक्षेपगीता इति एकः विषयः आसीत् तत् वयं न पठितवन्तः एतावत् पर्यन्तम् अद्यदिने मम विचारः अस्ति गीता इत्युक्ते तत्र गीतायाः लघुस्वरूपं काव्यात्मकम् इति अस्ति तत्र तथैव गीतोपदेशप्रसङ्ग इत्युक्ते तत्र कथा कथायाः रूपं तत्र अस्ति तावत् कस्मात् प्रसङ्गात् गीता उद्रुता भगवता एतत् सर्वं विषयकः कथा तत्र वर्तते वयम् द्वयोः अंशयोः अद्यदिने एव शनैः शै पठनं कुर्मः यथा अहम् उक्तवती गणे गणे अहं प्रेषितवती तत् सर्वेषां पुरतः यदा शक्यते चेत् भगवद्गीतायाः प्रथमम् अध्यायं तत्र पुरतः प्रथमः अध्याय अथ तत प्रथमोऽध्यायः ततः आरभ्य युगपत् तस्यापि पठनं वयं प्रयत्नं कुर्मः कथं भवति चेत् अधुना पुस्तके गीतोपदेशप्रसङ्गः षट्विंशतितमं पाठमस्ति अत्र मया एकदृष्टां स्क्रीन् शेर् करोमि स्त्रीं दृश्यते अत्र पश्यन्तु प्रथमे विभागे तत तत् गीतोपदेशप्रसङ्गः इति अस्ति द्वितीये विभागे तत्र सङ्क्षेपगीता पुस्तकतः एव मया तत् स्क्रीन्शाट्स् स्वीकृतमस्ति सङ्क्षेपगीता इति प्रसङ्गः अत्र अस्ति गीतोपदेशप्रसङ्गः गीता उपदेशप्रसङ्ग गीतोपदेशप्रसङ्गः तत् कथम् पठनम् कुर्मः इति चेत् तत्र प्रथमम् एकमेकम् वाक्यम् स्वीकृत्य तस्य अर्थः कः इति पश्यामः तथैव काव्यात्मकदृष्ट्या तत् कथमस्ति तत्र एतान् श्लोकान् पठत अत्र प्रयुक्तानि क्रियापदानि परिशीलयत च इति सूचना अस्ति अत्र तत् पश्यामः कथं भवति चेत् प्रथमतः तु एतं प्रसङ्गं सावधानं पठत ततः आरभ्य युद्ध युद्धस्य प्राक् किम् अभवत् पश्यामः अनेन भवान् आरम्भं करोति वा एतं प्रसङ्गं सावधानं पठत hmm. महाभारतयुद्धं निश्चितम् आसीत् युद्धं, युद्धं hmm. कर्तुम् इच्छतः कौरवाः पाण्डवाश्च कुरुक्षेत्रयुद्धभूमौ समवेताः अभवन् ah. आचार्यः तावत्पर्यन्तं हा एकमेकं वाक्यं पश्यामः हा महाभारतयुद्धं निश्चितम् आसीत् इत्युक्ते किम्भारतयुद्धं महाभारतयुद्धं डेफिनेट्लिङ्ग् आम् आं निश्चितम् अधुना तत्र कृष्णः तत्र मध्यस्थरूपेण कार्यं कृतवान् आसीत् परन्तु तस्य कोऽपि लाभः न जातः अधुना युद्धं तु भवेत् भविष्यति एव इति स्थितिः निश्चितं युद्धस्य निश्चितीकरणं कृतम् अत्र दृश्यते अनवाय्डेबल् इति स्थिति युद्धं कर्तुम् इच्छन्तः कौरवाः पाण्डवाः च हा युद्धं कर्तुम् अत्र कर्तुम् इति प्रकृतिप्रत्ययः हा अधुना इण्टेन्शनली अहं तत् प्रकृति इति शब्दस्य योजनां करोमि प्रकृतिप्रत्यय प्रकृतिप्रत्ययद्वयोः मेलनेन पद प्रद पदं निष्पद्यते यदा धातुरूपी प्रकृतिः अस्ति चेत् यदा प्रातिपदिकरूपी प्रकृतिः अस्ति चेत् अत्र कर्तुम् इति मूलतः धातु अस्ति वा प्रातिपदिकमस्ति महोदय Um, uh, कर्ता uh. uh, परन्तु तत्र प्रत्ययस्य विषये वदति वा मूलतः प्रत्ययः कः कर्तुम् इति द्वितीया विभक्ति हा न तदस्ति तुमुन् प्रत्यय तुमुन् या कर्तुं uh. okay. कर्तुं गन्तुं प्रवेष्टु इति mm -hmm. yeah. तुमुन् प्रत्ययः तत् धातुः कः कर्ता इत्युक्ते प्रकृति धातुरूपी प्रकृति कृ तस्य तु तस्मात् परे तुमुन् प्रत्ययस्य योजनेन रूपं निष्पद्यते कर्तुं युद्धं कर्तुं कौरवा पांडवा क्या पश्य सर्े पांडवा विसर्ग से चकार अभवन्, कुरक्षेतुद्धभूम अभवन् इच्छन्तः कौरवः इत्युक्ते किं महोदय कौरवाः युद्धम् इच्छन्ति आ बहु सम्यक् कौरवाः युद्धम् इच, इच्छन्ति तत्र पाण्डवाः अपि यथा कौरवाः इच्छन्ति पाण्डवाः अपि इच्छन्ति तत् क्षत्रियधर्मानुसारेण पाण्डवाः अपि सज्जाः सन्ति आसन् इति भूतकाले पाण्डवाः अपि सज्जाः आसन् कुत्र कुरुक्षेत्रयुद्धभूमौ न युद्धभूमि युद्धभूमेः नाम अस्ति कुरुक्षेत्र अधुना युद्धभूमौ अस्ति युद्धभूमौ युद्धभूमिशब्दस्य युद्धभूमौ विभक्ति किं भवतुमर्हति युद्धभूमौ स्थानं अत्र स्थानं दर्शयति स्थानं तत्र स्थानं दर्शयति अधिकरणमस्ति अतः सप्तमी इति अधिकरणमस्ति अतः सप्तमी पाण्डवाः च कुरुक्षेत्रयुद्धभूमौ समवेताः अभवन् समवेताः अत्र पश्यन्तु अस्माकं प्रथम अध्याय सर्वेषां पुरतः यदा अस्ति चेत् पश्यन्तु अथ प्रथमोऽध्यायः धृतराष्ट्र उवाच प्रथमापङ्क्तिः कस्य प्रथमापङ्क्तिः धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः युयुत्सवः अत्रापि प्र सन्दर्भः अस्ति खलु युयुत्सवः इत्युक्ते योद्धुम् इच्छुकः युद्धस्य इच्छा यत्र अस्ति ते युयुत्सवः युयोत्सवः तत्र सनादिप्रत्यय अस्ति योद्धुम् इच्छुकाः जनाः अत्र तथैव लिखितमस्ति खलु युद्धं कर्तुम् इच्छन्तः अतः तत् मया चिन्तनं मया चिन्तनं कृतम् अत्र युगपथ ग्रहणं वयं कुर्मः प्रयत्नं कुर्मः तत् धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः अत्र पश्यन्तु मूलतः तत् श्लोके समवेता इति दृश्यते परन्तु तत् सन्धि सन्धेः विचारं यदा कुर्मः चेत् भवति समवेताः हा समवेताः इत्युक्ते सम्मिलितः समवेता सम उपर्ग अव उपसर्ग अस्ति ई धातो समवेताः अभवन् के समवेताः अभवन् कौरवाः पाण्डवाः कीदृशाः ते युद्धं कर्तुम् इच्छन्दः युयुत्सवः वदतु युयुत्सवः वदतु यु, युयुत्सवः युयुत्सवः युयुत्स यु, यु, युद्धु इच्छुकः युद्धु इच्छुकः युयुत्सवः अधुना धृतराष्ट्रस्य प्रश्नः अधुना अग्रिमे पठतु अग्रिमं वाक्यं भवत्याः ध्व एवं वा अधुना अधु अधुना श्रूयते इतः पूर्वं अभवत् ओहो हो कुतः आरभ्य न श्रुतवन्तः भवन्तः सर्वे एकवाक्यम् एव एकवाक्यं द्वयम् अस्तु तत् धर्मक्षेत्रे कुरुक्षेत्रे समवेता युत्सवः योद्धुम् इच्छुकः इति तावत् हा अत्र अधुना अग्रिमं वाक्यं पठतु भारतमहोदय ओके आचार्यः भीष्मः कौरवा कौर सेनापतिः आसीत् इत्युक्ते किम् आचार्य भीष्मः कौरवाणां सेनापति सेनापतिः आसीत् भीष्माचार्य पितामह भीष्म कौरवाणां सेनापति सेनापतिः okay. द्रुपत्पुत्र दृष्टदुन्म दुन्म दुन्नः दृष्ट दृष्टदुनः पाण्डवानां ुम्नः ओके hmm. okay. hmm. uh, पाण्डवानां सेनापतिः आसीत् hmm. uh, द्रुपत्पुत्रः दृष्टदुम्नः uh, hmm. पाण्डवानां सेनापतिः आसीत् hmm. uh, असङ्ख्याः क्षत्रियाः hmm. तत्र सम्मिलिताः आसन। hmm. आसन् असङ्ख्याः क्षत्रियाः तत्र तेषाम् एकत्रीकरणं तत्र आसीत् इति अत्र अधुना अत्र आगच्छतु किञ्चिदित्र एतावत्पर्यन्तं पठतु एतान् श्लोकान् ततः अथादौ दृष्टराष्ट्रस्तु सञ्जयम् परिपृच्छति कुरुक्षेत्रे समायाताः किम कुर्वन्त मत्प्रियाः कुर्वत मत्प्रियाः पश्यन्तु अत्र एव हा कथमस्ति प्रथमः श्लोक अस्माकम् धृतराष्टौ वाच धर्मक्षेत्रे कुरुक्षेत्रे समवेतायुस्तवा मका पांडवाश्चैव कित सज्जय संजय अत्र अशनु अनर्थम मत प्रिया मा मम ममत्व मम विषय किमकुर्वतमत्प्रियः कौरवाणां विषये एव सः पृच्छति धृतराष्ट्र धृतराष्ट्रस्य एकः एव श्लोकः भगवद्गीतायाम् आरम्भे एव धृतराष्ट्रस्य एकः एव श्लोकः परन्तु तत् एषः श्लोकः अपि तत्र किं दृश्यति द्वेषः ममत्व लोभः आसक्ति सर्वेषां तत्र प्रकटनम् अत्र भवति मामकाः पाण्डवाश्चैव किम् अकुर्वत सञ्जय मम वस्तुतः पाण्डवः इत्युक्ते पाण्डवाः कस्य पुत्राः आसीत् महोदयुत्रः पाण्डु पाण्डुः पण्डु पितुः <laughs> पितुः नाम पण्डु पण्डोः पुत्राः इत्युक्ते पण्डुः कः अनुज. अनुजः हा अनुजः तर्हि तत्र भावना कीदृशी भावना ममत्व स्वस्य पुत्राणां विषये ममत्वम् अधिकतया हा अतः मत्प्रियाः इति वदति सम्बोधनं तत् मत्प्रियः इति अन्येषां कृते पाण्डवः इति शब्दस्य योजना पाण्डवाः चैव किमकुर्वत सञ्जय तथैव अथादौ धृतराष्ट्रः तु सञ्जयं परिपृच्छति अथ आदौ अथ आदौ इत्युक्ते तत्र तत् श्लोकानां तत्र एक एका शैली अस्ति अथ आदौ इत्युक्ते प्रारम्भे अधुना धृतराष्ट्रः तु सञ्जयं परिपृच्छति अत्रापि पश्यन्तु सर्वे परिपृच्छति परि पृच्छति अत्र धातु वक्तुम वक्तुमिच्छति वा कोऽपि उपसर्गं प्रो इति कः धातुः कः प्रो न अत्र इतोपि कोऽपि परि इति उपसर्ग तत्तु योग्यं पृच्छ पृच्छदातु पृच्छदातु अत्र वदामि किं mm. भवति एकवारम् एकवारं अत्र लिखित्वा दर्शयामि एकमिनिट् पृच्छ अत्र पश्यन्तु अस्माकं लट्लकाररूपमस्ति पृच्छति अस्तु वदति गच्छति चलति धावति पृच्छति परन्तु अत्र धातुः अस्ति hmm. पृच्छ तस्य पृच्छ इति रूप प्रश्नं करोति इति अर्थः किमस्ति अत्र प्रश्नं करोति परिपृच्छति अत्र पृच्छति इत्युक्ते प्रश्नं करोति सामान्यतया पृच्छति परिपृच्छति इत्युक्ते तत्र गाढतया सूक्ष्मतया पृच्छति इति परि परि उपसर्गेण तत् वयं दृष्टवन्तः खलु उपसर्गेण mm. किं भवति बलात् धात्वार्थम् अन्यत्र नयति इति तत् परि उपसर्गेण वयं साधितवन्तः तत् सूक्ष्मतया पृच्छति इतोपि मन भावना किंची द्वेश भावनया त्राची सूक्ष्मतया सज्जय पृछती सजय धुतराश्रो सीपृती कुक्षेत्रे सिया कि अकुर्त कि अकुवत प्रश्न हा सता या इती धातु दत्र, तम की उपसर्ग सम आ इती उपसर्ग, आगताह, समवेताह, सर्ग इुक्टता आगता समवेताह, स सम्मिलिताः इति कुत्र अस्ति हा अत्र अस्ति एकनेशः अत्र पुस्तके एव पश्यन्तु सर्वे एकवारं मया तत् स्क्रीन्शाट् किमर्थं तत् द्वयोः अध्ययनं युगपत् भवेत् इति परन्तु अहं स्क्रीन्शाट् पश्यन्तु हा गीतासोपानम् अस्माकं पुस्तकमस्ति म्बर् वदति वा भगिनी कृपया पेज् नम्बर् तत्र फोर्टि फोर् इति चतुष्ट चत्वारिंशत् फोर्टि फ़ोर् वा अस्तु भगिनि अनन्तरम् अत्र गीतोपदेशप्रसङ्ग कुत्र अस्ति सेवेन् आमामां तत्र अस्ति <laughs> अत्र पश्यामः सर्वे पुनः पुनः अस्माकं मया किं कृतं तत् विल् लर्न् देट् सैमल्टेनयस्लि इति मम विचारः अत्र एकवारं पश्यन्तु पश्यन्तु अत्र अस्ति गीतोपदेशप्रसङ्ग दृश्यते दृश्यते दृश्यते हा अधुना एतावत्पर्यन्तं किम् अभवत् प्रथमे अध्याये तत् अस्ति अनन्तरम् अग्रिमे अर्जुनः तत्र एवं ततः आरभ्य विसृज्य रथे उपश् उप उपविष्टवान् तदपि प्रथम अध्याये वा अनन्तरम् अज्ञान् तत् गीतोपदेशः तत् अहं चिन्तितवती तत् सैमिल्टेनियस्लि वी केन् इति विचार अस्तु भगिनी अस्तु भगिनि अस्तु अस्तु एतावत्पर्यन्तं हा अस्तु अग्रिमे वीणाभगिनी भवती पठति वा अतः आरभ्य असङ्ख्यायाः क्षत्रियाः हा अग्रिमे असङ्ख्यायाः क्षत्रियाः तत्र सम्मिलिताः आसन् अत्र अत्र प्रश्नः एकः तत्र क्षत्रियाः इति पदस्य विशेषणपदानि कानि एक्जेक्टिव्स् इति क्षत्रिया इति विशेष्यपदं विशेषणपदानि तस्य असङ्ख्य असङ्ख्यसङ्ख्या सम्मिलिताः अपि विशेषं विशेषणपद सत्यं योग्यम् क्षत्रिया इति विशेष्यपदं तस्य एकं विशेषणपदमस्ति असङ्ख्याः द्वितीयमस्ति सम्मिलिताः विशेषणद्वयम् आसन् इति लङ्लकार यद्वर्षणं यत् लिङ्गं यत् विभक्ति तद् विशेष विशेषस्य तत् विशेषणस्यापि भवति खलु भिन्न आं सत्यं सत्यं तथैव क्षत्रियाः अस्ति असः असङ्ख्यायाः अनन्तरं सम्मिलिताः इति अभवत् अस्तु अग्रिमं किमस्ति भीष्मः भीष्मः सिंहनादं कृत्वा शङ्खनादं कृतवान् ततः सैनिकाः शङ्खान् भेरिः पणवान् आनकान् गोमुखान् च वादितवन्तः hmm. पाण्डवाः अपि पाण्डवाः अपि शङ्खनादं कृतवन्तः तावत्पर्यन्तम् अधुना अत्र आगच्छतु अत्र किमस्ति अग्रिमं द्वितीयं श्लोकं पठतु अवादि अवादि अवादित् mm -hmm. सज्जन सज्जयेवम् mm -hmm. द्रोणं दुर्योधनस्तदा mm -hmm. उपसङ्गच्छते ब्रूते निबोधयति संस्थितान् एकम एकम शब्दं स्वीकृत्य अवादित अवादित इति यथा लङ् लकारे वयम् अवदत् इति वदामः खलु लङ् लकारे अवदत् इति प्रथमपुरुष एकवचनान्तपुर अगच्छत् अवदत् अपठत् एवं सर्वं लङ्लकारे अस्ति तथैव लङ् लकारे इति भूतकाल परन्तु परोक्षभूतकाल परोक्षभूतकाले प्रथमपुरुष एकवचनान्तपदं भवति अवादित् अवादि अत्य खलु अवादी सू एव अहम लिखि दर्शिश चिंता मस्त अवादी प्रथमता तो अवादी परूतका अदुना किं नाम परभूतकाल साल परभूतकाल केद पूर्वं अद्य न हयन ह्यन इतः पूर्वं किमपि अभवत् तदेव अपरोक्षभूतकाल इति अक्षोः परे इत्युक्ते अस्माकं पुरतः न अस्माकं पितामहस्य पुरतः वा न प्रपितामहस्य पुरतः वा न अनारि अनन्तकाल वयं न जानीमः परन्तु अस्माकं श्रद्धा अस्ति एतत् सर्वम् अभवत् हा तत् अस्ति परोक्षभूतकाल् अवादित् इति परोक्षभूतकालस्य रूपमस्ति अवादि सञ्जयः तु एवं कथं भवति कथं लिखित्वा दर्श्यामि अवादित् अनन्तरमस्ति संजयः संजयः विसर्गस्य भवति सकार ह सञ्जयस्त्वेवं संजयः विसर्गस्य सकार अनन्तरमस्ति टू तु उकारस्य बकार भूत्वा एव तत्र पुस्तके किमस्ति सञ्जयस्त्वेवम् उकारस्य बकार एकार त्वेवम् इति भवति मूलतः तत्तु अस्ति तस्य यणसन्धि भूत्वा बकार भूत्वा एवम् वयं सर्वे जानीमः ईकार अस्ति तस्य यकार भवति उकार अस्ति चेत् तस्य वकार भवति रु इति अस्ति चेत् तस्य रेफः भवति लृ इति अस्ति चेत् तस्य लकार भवति इति यणसन्धिः नाम उ ऊरु लृ यथा सङ्ख्यम् अनुद्दिश्य य ब इति भवति अत्र उ अस्ति तस्य ब भवति अग्रिमें अस् अतः रूपम दृश्यते अस्मा पुस्तक संजयह, सब अवादी सू एब अजय क्या वजह धृतराष्ट्रस्य मित्रः अपि भवति तस्य समाय मन्त्री अपि भवति तस्य समीपे का आसीत् महाभारतसमी समये ज्ञानदृष्टि दत्तवान् विशेष ज्ञानदृष्टि दत्त दत्तं केन केन दत्तं दिव्य व्यासमुनिना इति व्यासमुनिना दत्तं हा तत् अतः सः यत्किमपि तत्र प्रचलन् अस्ति प्रचलत् mm. अस्ति mm. सर्वेषां सः सारग्रहणं कृत्वा वा सर्वेषां समी समीक्षणं कृत्वा सः धृतराष्ट्रं वर्णयति धृतराष्ट्रस्य mm. समीपे सः स्थित्वा सर्वं युद्धप्रसङ्गं वर्णनं करोति तस्य हा अधुना द्रोणं किम् संजय सञ्जयः वदति द्रोणं दुर्योधनः तदा दुर्योधनः द्रोणं वदति तत् अधुना किमस्ति अध्याये अध्यायं पश्यन्तु सर्वे दृष्ट्वा तु पाण्डवानेकम् व्यूढं दुर्योधनस्तदा आचार्यमुपसङ्गम्य चनम् अब्रवीत् राजा वचनम् अब्रवीत् इत्युक्ते राजा राजा इति कः दुर्योधनः दुर्योधनः आचार्यम् उपसङ्गम्य आचार्य इत्युक्ते तेषां शिक्षकः द्रोणमहर्षि द्रोणाचार्य द्रोणम् उपसङ्गम् अधुना श्लोके तत् उपसङ्गम्य इति अस्ति अत्र उपसङ्गच्छते ब्रूते निबोधयति संस्थिताम् पश्यन्तु एतस्मिन् श्लोके दुर्योधनस्य मानसिकता दृश्यते कथम् उपसङ्गच्छत्ते ब्रूते निबोधयति संस्थिताम् इत्युक्ते तत्र द्रोणः इति महान् धनुर्धारी आसीत् परन्तु आचार्यः अपि आसीत् परन्तु दुर्योधनस्य औद्धत्यपूर्णवर्तनं कथं ब्रूते निबोधयति निबोधयति इत्युक्ते द्रोणम् अपि सः अधिकारेण वदति द्रोणं पुरतः अपि द्रोणः वस्तुतः आचार्यपदि परन्तु सः निबोधयति तत्र बोधनं कथं भवेत् आचार्येण शिष्यं वा शिष्येण आचार्यं परन्तु सः शिष्यः विद्यार्थी, तरी तत्र त्रचार्य उपसंगम्य राजा राजा थी स्पिरिट पर्टिक्युलर्ली अहम राजा अस् वस्तु युद्ध प्रसंगे सह राजा आसीत राजा आसीत सह, सुशन धृतराष्ट्र संस्थित आस परु नृपेण तत् राज्ञः भावना मनसि ब्रूते वदति निबोधयति बोधनं करोति संस्थितान् अधुना संस्थितान् निबोधयति इत्युक्ते पश्यन्तु सर्वे संस्थितान् इत्युक्ते के के जनाः तत्र सम्मिलिताः अस्माकम् अस्माकं पक्षे के के जना वस्तुतः द्रोणमहर्षि द्रोणाचार्य सर्वं जानाति सर्वं एव्रिथिङ्ग् वाज़् नोन् टु हिम् बिको हि वाज़् आचार्य तर्हि एषः वदति संस्थितानि इत्युक्ते ये तत्र सम्मिलिताः ये तत्र समायाताः ये तत्र समवेताः तान् विषयबोधनं सह आचार्यं करोति दृष्ट्वा तु पाण्डवानेकं व्यूढं दुर्योधन सदा आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् अधुना किं वचनम् अब्रवीत् तत् अग्रिमे श्लोके प्रथमे अध्याये अस्ति एकवारं तदपि पठामः कः सर्वस्य सर्वेषां पुरतः पुस्तकम् अस्ति खलु अधुना तत् मम समीपे अस्ति अस्ति अधुना पाण्डुपुत्राणाचार्यमहती व्यूडाम् दृपदपुत्रेण तव शिष्येन भीमता अग्रिमेऽपि भी पठतु अत्र अत्रशूरा। अत्र शूरा महे श्वासा भीमार्जुनसमायुधी युयुद्धानो विराटश्च तृपदश्च महारतः दृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् पुरुजि कुन्तिभोजश्च शैव्यश्च नरपुङ्गवः युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् सौभद्रोद्रौभदेयाश्च सर्व सर्वयेव महारताः अस्माकम् तु विशिष्टाये सान्निभोध द्विजोत्तम नायका मम सैन्यस्य सञ्ज्ञातम् प्रवीमिते बवान् भीष्मश्च कर्णश्च कृपश्च समितिम् जयः अश्वत्तामाविकर्णश्च सौमदत्तिस्तदत्तैव च अन्ये च बहवः शूरा मदत्ते त्यक्तजीविताः सर्वे युद्धविशारदाः अपर्याप्तम् तत् अस्माकम् बलम् भीष्माभिरक्षितम् पर्याप्तम् द्विदमे तेषाम् अयनेषु च सर्वेषु यथा भागमवस्थिता भीष्ममेवाभिरक्षन्तु सर्व एव अधुना धन्यवादः बहु सम्यक् बहु सम्यक् एतावत् पर्यन्तं पश्यन्तु तत्र अस्माकं तु सप्तमः श्लोकः अस्माकं तु विशिष्टाय तान् निबोद द्विजोत्तम तत् निबोधयति निबोध ट्रै टु अण्डर्स्टेण्ड् इति वदति हा कं द्रोणं वदति द्विजोत्तम इति जातिवाचक द्विज इति सः ब्राह्मण अतः तद् द्विजोत्तम इति वदति नायका मम सैन्य सैन्यस्य सञ्ज्ञार्थं तान् ब्रवीमिते इत्युच्य भवतः अवगमनार्थम् अहं वदति आचार्यं भाषा कीदृशी अस्ति औद्धत्यपूर्ण भवतः अवगमनार्थं सञ्ज्ञार्थं भवतः ज्ञानार्थम् अहं वदामि ह अतः तत्र सर्वमत्र संक्षेपगीता इति अस्ति खलु उपसङ्गच्छत्ते ब्रूते निबोधयति संस्थितान् यथा जयन्तिभगिनी पठितवती तत् एकादशश्लोकपर्यन्तं तत्साररूपेण निबोधयति संस्थितान् द्रोणं दुर्योधन तथा इति अस्ति अत्र बोधनं कं द्रोणं कः कृतवान् दुर्योधन सर्वेषां नामानि अस्ति यत् पश्यन्तु युयुधानः विराटः द्रुपदः महारथः हा अनन्तर दृष्टकेतुः काशीराजः सर्वेषां नामानि इतोपि अग्रिमे वदति अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितं पर्याप्तं तु इदमेतेषां बलं भीमाभिरक्षितम् अत्र इतोपि सः वदति तत् किं भवति व्यूढां तृतीये श्लोके पश्यन्तु व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता अधुना द्रुपदः द्रुपदस्य द्रोणस्य वैर वैरत्वं तु सुप्रसिद्धमस्ति अतः स वदति द्रुपदपुत्रेण तव शिष्येण धीमता एतानि सर्वाणि विशेषेण कस्य कृते द्रुपदस्य कृते सः धीमत् सः तव शिष्यः सः द्रुपदपुत्र द्रुपदपुत्रः द्रुपदपुत्रेण शिष्येण धीमता इति सर्वं तत्र वदति उत्तमं हा अधुना अत्र जयन्तिभगिनी भवती अत्र पठतु भीष्मं ततः आरभ्य शङ्खनादं ततः ततः तत पर्यन्तं पठतु तत्पर्यन्तं भीष्मः एकनिमिषं भीष्मः भीष्मः सिंहनादम् तत आरभ्य भीष् भीष्मः सिंहनादम् कृत्वा शङ्खनादम् कृतवान् ततः सैनिकाः शङ्खान् बेरिः बेरीः पनवान् आनकान् गोमुखान् च वादितवन्तः भीष्मना भीष्मः सिंहनादं कृत्वा शङ्खनादं कृतवान् भयङ्करेण सङ्घं सिंहनाथम् एव सिंहनाथम् इव कृतवान् ततः ततः परं सैनिकाः अपि uh, स्वस्य सङ्घान् um, uh, सङ्खान् अपि वेरिवाद्यं पनवान् आनकान् mm -hmm. कोमुखान् च uh, इत्यादि uh, वादितवन्तः ततः mm -hmm. पाण्डवाः अपि शङ्खनादं कृतवन्तः पाण्डवाः अपि स्वस्य सङ्का सङ्कं धृत्वा सङ्कनादं कृतवन्तः अर्जुनः स्वस्य अष्टान्तश्लोकं प्रति गच्छामः हा अत्र हा हा श्लोकः अधुना तत् भवान् पठति ततो रथस्थितः तृतीयः श्लोकः पठति तथो रथस्थितः कृष्णः पाञ्चजन्यं दमस्तये दमस्य दमस्योः दमस्य पश्चात् सर्वेपि योद्धराः शङ्खास्वीयान् पचन्तु प्रथमः पितामहः अनन्तरम् अन्यैः तत् कौरवैः कौरवेषु ये योद्धारः सन्ति सङ्घनादन् अनन्तरं कृष्णः अर्जुनः एवं सर्वं हा अधुना अध्यायं प्रति गच्छामः महोदय भवतः पुरतः तत् अस्ति वा गीतायाः पुस्तकं पाठं पाता, पाठमस्ति आं तत् तस्य सञ्जनयन् द्वादशश्लोकतः पञ्चदशपर्यन्तं पठतु द्वादश द्वादश द्वादश सञ्जनयन् हर्षं गुरुवृद्धपितामहः सिंहनादं शङ्कं तद्मौ प्रतापवान् ततः ततस ततस्त्येवैत्यै ेतरी हैरते महति स्यन्तेन स्थितौ माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदमधु वाजन्यं कृषिकेषु कृषिकेषु देवदत्तं धनञ्चय अत्र पश्यन्तु प्रथमतः तु कुरुवृद्धपितामहः सिंहदानं शङ्खं दधमौ प्रतापवान् अत्र दधमौ इति अपि परोक्षभूतकालरूपं प्रथमतः तु कुरुवृद्धपितामहः तस्य शङ्खनानम् अनन्तरं शङ्खाः भेयः पणवा सर्वेषां तत्र तुमुलनादः अभवत् अनन्तरं माधवः पाण्डवः रथस्थितः कृष्णः तस्य पाञ्चजन्यम् इति शङ्खस्य नामकरणं तत् हृष्टिदेशस्य हजन्तय इत्युक्ते अर्जुनस्य ेव तत्स इति शङ्ख अत्र पोङ्ग्रं पद्मो महाशङ्खं भीमकर्मा भूगोल भीमस्य नामकरणमपि अग्रिमे तत्र सर्वेषां शङ्खानां तत्र धमनम् इति रुच्यते पश्चात् सर्वेपि योद्धारः शङ्खान् स्वीयान् धमन्ति च धमन्ति इति धमा धातोः लट्लकाररूपं धमा इति धमा इत्युक्ते ट्युब्लो हा पश्यामः तत् षोडश श्लोकतः नवदशश्लोकपर्यन्तं विना भगिनी भवती पठति वा अनन्तविजयं तत् हा भगिनि क्षम्यतां महोदय अहं भोजनमध्ये अस्मि ओहो ओहो अस्तु अस्तु चिन्ता मास्तु अन्य कोऽपि पठेत् न अहम् अहं पठामि पठामि पठति वा अस्तु हा हा पठामि अनन्तविजयम् राजा कुन्तीपुत्रो युधिष्ठिरः नकुलस्सह देवश्च सुघोषमणिपुष्पकौ काश्यश्च परमेश्वासः शिखण्डी च महारथः धृष्टद्युम्नो विराटश्च सात्यकिश्च पराजितः द्रुपदो सर्वश सर्वशः पृथिवीपते सौभद्रश्च महाबाहुः शङ्खम् दध्म पृथक् पृथक् सघोषोद्धर्तराष्ट्राणा हृदयानि व्यधारयत नभश्च पृथिवीम् चैवलव्यनुनादयन् अत्र अत्र एतावत्पर्यन्तम् पञ्चदशतः सर्वेषाम् श्लोकानाम् धमनम् इत्युक्ते वयम् अवगन्तुम् शक्नुमः तत् कुन्तिपुत्रः युधिष्ठिरः तस्य शङ्खस्य नामकरणमस्ति अनन्तविजय इति अग्रिमे तत् श्लोकं दृष्ट्वा भवती वदति वा नकुलस्य शङ्खस्य नामकरणं किं सहदेव नकुलस्य शङ्खः अस्ति सुघोषः सहदेवश्च सहदेवस्य शङ्खस्य नाम अस्ति मणिपुष्प सम्यक् मणिपुष्पकः मणिपुष्पकः अहं काशीराजश्च अस्ति परमेश्वास वा शिखण्डियस्य तत्र शङ्खस्य नामकरणमिति न पुनः एकवारं सर्वेषां नामानि तत्र काश्यः परमेश्वासः शिखण्डीमहारथः दुष्टुनः विराटः सात्यकी च पराजितः इत्युक्ते तत्र नामपदम् पदम् काश्यः परमेश्वासः परम, परमे परम इश्वासः इति शिखण्डि अस्ति महात्मः तत् विशेषणपदम् अपराजितः अग्रिमे अग्रिमे पठतु द्रुपदः द्रुपदो द्रौपदेयाश्च द्रौपदेयाः इत्युक्ते द्रुपदस्य पुत्रः वा द्रुपदो द्रौपदेयाश्च द्रौपद्याः पुत्रा पञ्चपाण्डवाः सन्ति खलु mm -hmm. तत्र पञ्चपाण्डवः सर्वेषां तत्र पुत्राणां नामकरणं पञ्चपुत्राः द्रौपद्याः पञ्चपुत्राः अतः mm -hmm. तद् द्रौपदीयाः योजनेन द्रौपदेयाः द्रौपद्या द्रौपदी द्रौपदीपुत्राः इति अतः द्रौपदेयाः सर्वेषः पृथिवीपते अत्र पृथिवीपते इति कमुद्देश्यं सः वदति पृथिवीपति सर्वः राजाः भगिनि हा न अत्र सञ्जयः वदति खलु सञ्जयः वदति कं वदति धृतराष्ट्रं वदति धृतराष्ट्र इति राजा सम्राट् आसीत् सः तस्मिन् समये अतः पृथिव्याः पति हे पृथिवीपते तत्र पश्यतु हे पृथिवीपते सम्बोधनं हे पृथिवीपते द्रुपदः द्रौपदीयाः सर्वशः अग्रिमे पश्यतु अग्रिमे किञ्चिदस्ति पठतु भगिनी सौभद्रश्च महाबा शंखम दध् पृथक पृथक सभी जाने पृथक पृथक शुद्ध सर्वशा सीना दी संेपूपेण परन्तु मूलतः गीतायां किमस्ति सर्वेषां नामकरणं सर्वेषां शङ्खानाम् इत्युक्ते किञ्चन जनानां शङ्खानां नामकरणमपि अस्ति धनम् अभवत् तत्रापि भीष्मसिंहं कृत्वा शङ्खनान् कृतवान् निकाशङ्ख आनका प्रसंग, एते सर्वे तत् युद्धप्रसङ्गप्रसङ्गे वाद्याः तत्र अस्ति वादनं कथं करणीयमिति वादितवन्तः पाण्डवाः अपि कृतवन्तः अधुना अग्रिमे किम् भवति अस्तु अधुना आगस्ट् महोदये भवान् पठति वा अर्जुनः स्वस्य रथस्य ततः आरभ्य अर्जुनः स्वस्य रथास्य सारथीं श्रीकृष्णम् उक्तवान् श्रीकृष्ण अर्जुन अर्जुनस्य च श्रीकृष्ण of his mm -hmm. chariot um um kimuktam an tatapi patatu acyuta hm senayo madhye mama ratha sapaya hm put my chariot in the middle of the armies ah satyam अत्र युद्धार्थम् उपस्थितान् सर्वान् अहं द्रष्टुम् इच्छामि इति द्रष्टुम् इच्छामि इति इत्युक्ते अत्र अहं द्रष्टुम् इच्छामि वञ्चसि किमर्थं युद्धार्थं युद्धार्थं युयुत्सवः इति अधुना अत्रापि भवान् पठति वा तत्र अस् पशो एक पर्यत चतुर्थ श्लोक पढ़ती व्या सो कि कृष्ण ब्रवीति वैन अत्र धनुरुद्यते इति धनुः धनुः विसर्गस्य रेफ धनुः उद्यच्छते उद्यच्छते हा धनुः उद् पार्थः सः अपि कृष्णं ब्रवीति वै अत्र वै इति किमर्थमस्ति वै इति पादपूरणार्थम् इत्युक्ते तत्र पश्यन्तु मात्रागणनावा वा छन्दस् छन्दरूपेण तत्र श्लोकानां स्थापनं भवति श्लोकेषु छन्दविद्या इत्युक्ते तत्र मात्रागणना भवति तत्र पादपूरणार्थं मात्रायाः गणनां सम्यक् भवेत् वै इति पादपूर्णार्थमस्ति वै कदा कदा तत् तु आगच्छति वा च आगच्छति पादपूर्णार्थं हा धनुः उद्यच्छति पार्थः सः अपि कृष्णं ब्रवीति पार्थः अपि कृष्णं वदति अधुना धनुः उद्यच्छति इत्युक्ते पार्थः अर्जुनः अपि युद्धार्थं सज्जः आसीत् अनन्तरम् हस्ता गांडिव हस, हस्ताते त अग्रिमे परंतु आरंभे सी युद्धा सज्ज धनुछते पार्थ वदती सो्ये स्थापयती रम सर विसर्ग से रेफ उभ विसर्गे रेफ सेनयोरुभयोर्मध्ये सेनयोः उभयोः मध्ये यथा अवस्तु महोदय तत् उक्तवान् सेनयोः इत्युक्ते इन् बिट्वीन् टु इति हा सेनाद्वयं तत्र अतः सेनयोः उभयोः सेनयोर्मध्ये मम रथं स्थापय स्थापय इति ह अत्र पश्यन्तु अत्र अच्युत् इति हे अच्युत् कृष्णस्य कृते अच्युत् इति सम्बोधनं हे अच्युत् सेनयोः मध्ये मम रथं स्थापय अत्र युद्धार्थम् उपस्थितान् सर्वान् अहं द्रष्टुमिच्छामि अहं द्रष्टुमिच्छामि के के युद्धार्थं तत्र सम्मिलिताः तान् सर्वान् अहं द्रष्टुमिच्छामि हे अच्युत् कृपया मम रथम् सेनयो उभयोः सेनयोः मध्ये स्थापनं तस्य स्थापनं करोतु स्थापय अत्र अच्युत् इति सम्बोधनं किमर्थं कोऽपि वदति वा कोऽपि अगस्थमोदयः भवान् वक्तुमिच्छति तदापि अच्युतम् इत्युक्ते कोऽपि वदति हि डजन् हु डजन् लीव् ऐ मीन् तस्य भक्ताः ऐ मीन् सत्य तत् सत्यम च्युत अच्युत चुत नवती अ पर भगिनी भक्ता पर जीवनचर यदि तत्र वूक्ष्मतया अवलोक कूम तर विषयक चिंता वाला कि प्रतीयते सह कदा कर्तव्या्युत न अभव कर्तव्यपरायण कर्तव्यपरायण कर, पशन अंतिम महाभारत युद्धानी गांधारी समीप सह गा शापस्पी तवकार सहतवा त्रम शापम दत्वती खलु गाधारी परंतु सह तस्या स्वीकार अग्रिम अभी तरण Hmm. सः वृक्षभागे अधोः अधोभागे सः स्थितवान् आसीत् तस्मिन् समये तस्य मरणम् अभवत् परन्तु सः मुखस्य उपरि हास्यम् आसीत् इति hmm. कर्तव्यात् सः कदापि न च्युतः अतः अच्युतः सम्बोधय hmm. अधुना hmm. hmm. श्लोकं प्रति गच्छामः आगस्ट् मोदे भवानेव पठितुम् इच्छति वा, वा अत्र श्लोकक्रमाङ्क अत्र विंशतितः अथौ व्यवस्थितान् दृष्ट्वा तत् पठितुम् इच्छति वा विंशतः ट्वेण्टि त्रि ट्वेण्टि टु ट्वेण्टि त्रि पठति वा गीतश्लोकस् आमां टु ट्वेण्टि त्री आमाम् व्यवस्थितान् दृष्ट्वा नर्तरष्ट्राम् कपिध्वजः प्रवि प्रवृत्ते जस्तुसम्पाते धनुरुद्यम्यपाण्डवः ऋषिकेषाग्यम् इदमाहम् महीपते अर्जुन उवाच सेनयोरुभयोर्मध्ये कथम् स्थापयमीच्युताम् mm. यावदी निक्षे यावदी तान् निरीक्षेऽहम् योधुकाम् मानवस्थितान् कैर्मया सह यो योम् कैर्मया सह यो योद्ध्यान् योद्धव्यम् योद्धव्यम् योद्धव्यम् अस्मिन् रणसमुद्यमेमान्ना न वीक्षेहम् धन्तराष्ट्रस्य दुर्बुद्धिः युधिप्रियचिकीर्षवः सम्यक् अति उत्तमम् वि रियली विप्रिशियेटिङ्ग् युर् एफर्ट्स् एण्ड् वी आर् वेरि हेपी रियली रियली वि एप्रिशियेट् होल् हार्टेड्लि बहु ीत्या भवान् पठितवान् विौड् आफ् यू अत्र अधुना पश्यन्तु सेनयोरुभयोर्मध्ये स्थापयेति रथं मम अत्र एषा स्थिति अतः का उपस्थितान् सर्वान् अहं द्रष्टुमिच्छामि तथैव मूलतः भगवद्गीतायाम् योत्समानान् अवेक्षे अहम् य एते अत्र समागताः धार्तराष्ट्रस्य दुर्बुद्धेः युद्धे प्रियचिकीर्षवः धार्तराष्ट्र धार्तराष्ट्र इत्युक्ते धृतराष्ट्रस्य पुत्रः धृतराष्ट्रस्य पुत्र इत्युक्ते दुर्योधन तस्य दुर्बुद्धेः कारणात् तस्य दुर्बुद्धिः आसीत् दुर्बुद्धि किमर्थं तत् दुर्बुद्धि इति शब्दस्य योजना कथं दुर्योधनस्य दुर्बुद्धि युद्धकारणात् तत्र अत्र दृश्यते वदतु कोऽपि किङ्ग्डम् असूयकारणेन आम् आम् आम् तत् अहम् एव राजा अहम् एव सर्वज्ञ तर दुधन वचन अस्ल जे प्रवृत्ति जा मे निवृत्ति अहम सर्व जा धर्म कधर्म करु धर्म से आचरण की मम प्रवृत्तिना अधर्म त्यजनम निवृत्ति अधर्म विषयक निवृत्ति मनसी न आगती अतः दुर्बुद्धेः युद्धे प्रियचिकीर्षवः अधुना अहम् एकं प्रश्नं पृच्छामि सर्वेषां कृते तत्र सर्वे जानन्ति कौरवाः अधर्मिणः कौरवाणां पक्षः तत्र अधर्मस्य पक्षः इति सर्वे जानन्ति तर्हि वयं सर्वे अत्र द्रष्टुं शक्नुमः पाण्डवानां समीपे यु युद्धसेना कौरवाणां समीपे युद्धसेना पाण्डवानां समीपे या युद्धसेना तत्र न्यूनत्वं दृश्यते सङ्ख्यादृष्ट्या तत्र न्यूनत्वं दृश्यते सर्वे जानन्ति अधर्मिणः पक्ष परन्तु किमर्थं ते सर्वे तत्र कौरवाणां समीपे सम्मिलिताः किं कारणं भवितुमर्हति चिन्तयतु पुनः एकवारं प्रश्नं पृच्छतु हा मम प्रश्नः अस्ति कौरवाणां समीपे या सेना सङ्ख्यादृष्ट्या पाण्डवानां समीपे या सेना सङ्ख्यादृष्ट्या तत्र वयं जानीमः पाण्डवानां समीपे या सेना सा न्यूना Hmm. कौरवाणां समीपे तत्र सत् शस्त्रदृष्ट्या वा सेनादृष्ट्या अधिकं सज्जता hmm. दृश्यते हा hmm. अधिकत्वं hmm. दृश्यते hmm. सर्वे कौरवाणां पक्षः अधर्मिणां पक्षः तर्हि बहवः सर्वे नृपाः महाराजाः किमर्थं तत्र न पाण्डवानां समीपे फलशालिनः so, ah, mm -hmm. I mean, mm -hmm. इतोपि तत्र एकः महाभारते एव व्यासमुनेः एव वचनम् अर्थस्य पुरुषो दासः अर्थ पुरुषो कौरवाणां समीपे अधिकं धनम् अधिकं शक्ति अधिकं सामर्थ्यम् अतः बहवः जनाः तत्र सम्मिलिताः अधुनापि तथैव दृश्यते खलु एव कृष्णस्य समीपं कृष्णस्य पुरतः एव एवं सम्भवति अतः अद्यदिनं सम्भव सम्भवं चलति खलु आश्चर्यं किमपि mm. नास्ति तत् आम् <laughs> आम् आम, सत्यं सत्यं mm. आ, तत्र तत् उत्सिष्टं जगत् सर्वम् इति वदति विषये व्यासविषये तत् किमर्थं तत् त्रिकालाबाधितसत्यवचनानि तत्र सन्ति अतः अस्तु अग्रिमे द्रष्टुमिच्छामि इति वदति अग्रिमे तत्र अधुना कः पठति विना भगिनी अवसरः जातः वा अहं न स्मरामि नूतनतया गीताभगिनी वा श्यामलाभगिनी <coughs> अस्ति वा राधा भगिनी न पठितवती वा राधा भगिनी न भवती पठतु श्रीकृष्णः सेनयोः मध्ये तथा आरभ्य पठति श्रीकृष्णः सेनयो सेनयोः मध्ये रथं स्थापयित्वा उक्तवान् पार्थ अत्र समवेतान् सर्वान् कुरुन् पश्य इति श्रीकृष्णसेनयोर् सयोः मध्ये रथं स्थापनं करोतु कृतवान् uh, hmm. uh, hmm. अर्जुनस्य इच्छाप्रमाणे अनन्तरम् hmm. uh, उक्तवान् uh, अत्र समवेतान् सर्वान् पश्यतु इति hmm. अग्रिमे अग्रिमे uh, अर्जुनः तत्र पितॄन् पितामहान् आचार्यान् मातुलान् भ्रातॄन् hmm. पुत्रान् पौत्रान् सखी स्वश्रु स्वश्रु स्वश् श्वश्रूणान् श्वशुरान् श्वशुरान् श्वशुरान् सुहृदश्च दृष्टवान् उपस्थितान् तान् सर्वान् बन्धून् दृष्ट्वा अर्जुनः परं विषादं प्राप्तवान् अर्जुनः तत्र तस्य सर्वबान्धवान् दृष्टवान् पितामहः आचार्य मातुलाः सर्वे तत्र उपस्थितम् अस्ति hmm. तद् दृष्टवन्तः दृष्टवान् तत तदनन्तरं परमं विषादं प्राप्तवान् बहु दुःख दुःखं hmm. प्राप्तवान् hmm. सः कृष्णः एते hmm. hmm. सर्वे मम बान्धवाः Hmm. एतान् अहं मारयितुं न इच्छामि अहं hmm. युद्धं न करोमि इति hmm. उक्त्वा बाणं धनुः च विसृज्य रथे hmm. उपश उपविष्टवान् hmm. आम् अनन्तरं कृष्णं वदि, वदितवान् एते सर्वे मम बान्धवा आसित, अहं hmm. मारयितुं न इच्छामि तत् कारणम् अहं युद्धं hmm. न करोमि Hmm. एतत् उक्त्वा तस्य बाणः धनुः सर्वे च ते, ते विसृज्य रथे उपश् उपविष्टवान् आम् अहं युद्धं न करोमि कम्प्लीट्लि फ्लैट् बोर्ड् hmm. युद्धं न करोमि मारयितुं न इच्छामि अत्र आगच्छतु hmm. अत्र किमस्ति स्थापिते स्थापिते स्यन्दने तिष्ठन् असौ सर्वान् निरीक्षते दृष्ट्वा बन्धून् गुरून् चान्यान् वृषान् वृषं खेद्यते थी स्थापिते स्यन्दने स्यन्दन इत्युक्ते किं चन्दन इत्युक्ते रथ रथ रथे तिष्ठन् असौ सर्वा निरीक्षते सर्वेषाम् अवलोकनम् करोति दृष्ट्वा बन्धुन् गुरुन् च अन्यान् भृशम् सीदति सीदति तत्र टिद वस्तुतः तत् सद इति धातुः अस्ति सद विचरणगत्यवसादनेषु इति तस्य सीदति इति रूपं भवति सदस्थाने सीद आदेश, धमास्थाने धम आदेश, हा पास्थाने पिब आदेश् आदेशरूपेण आगच्छति अतः सीदति इति रूपं खिद्यते खेदं करोति वृषम् इत्युक्ते तत् अव्ययमस्ति वृषमित्युक्ते महत् प्रमाणेन बहुप्रमाणेन हा तत्र शोक इत्युक्ते यश् क्राइन् इति न विषाद प्रथमः अध्यायः किमस्ति भगिनी अर्जुनविषादयोगः uh -huh. तद्विषादः अनुकम्पा इति हा सर्वान् दृष्ट्वा भृशं चिदते खिद्यते अत्र पश्यतु दुर्योधन अपि सर्वान् पश्यति uh -huh. दुःशासन्न अपि सर्वान् पश्यति कर्णः अपि सर्वान् पश्यति नो चेत् तत्र भीष्माचार्य अपि सर्वान् पश्यति परन्तु खेदविषादः कस्य मनसि केवलं तत्र अर्जुनस्य मनसि mm. अर्जुनस्य तादृशी योग्यता mm. तादृशी मानवता अतः mm. अतः mm. एव सः एतत् सर्वं ज्ञानार्थं सक्षमः इति खलु mm. अतः एव सः विश्वरूपदर्शनं भगवान् तत् विश्वरूपदर्शनं कारयितवान् अर्जुनस्य mm. कृते एव तादृशी यो योग्यता एव न आसीत् हा बहु mm. अधिकप्रमाणेन मनसि खेदभावनया तत्र खेदभावना सम्मिलिता तत्र महता बहुप्रमाणेन mm. खिद्यते mm. हा एतावत्पर्यन्तम् mm. अनन्तरं किं भवति तत् अग्रिमे अधुना mm. भवती एव तत्र सञ्जयुवाच एवमुक्त्वा ततः आरभ्य इत्युक्ते uh, 24 ट्वेण्टि नैन् पठति वा आं भगिनि सञ्जय उवाच एवमुक्तो ऋषिकेश ऋषिकेशः गुडाकेशेन भारत सेनयोरुभयोर्मध्ये स्थापयित्वा रथे रथोत्तमं भीष्म भीष्मद्रोणप्रमुखतः सर्वेषाम् च महीक्षिताम् उवाच पार्थपश्यैतान् समवेतान् कुरूनिति तत्रापश्यस्थितान् पितॄन्थ पितामहान् आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखीस्तता श्वशुरान् सुहृदा सुहृदश्चैव सेनयोर् उभयोरपि तान् समीक्ष्य कौन्तेय सर्वान् बन्धून् वस, बन्धून् वस्थि स्थितान् सर्वान् बन्धून् अवस्थितान् अवस्थितान् अच्छा योजनाबद्धरीत्या तत्र सम्मिलिताः तत् अवस्थिता अवस्थितान् कृपया परया विष्टो विषादिषादिन्नम् अब, अब्रवीत् अर्जुन उवाच दृश द्रिष, दृष्ट्वे माम् स्वजनम् कृष्णात्सम् समुपस्थितम् सीदन्ती मम गात्राणि मुखम् च परिशुष्यति तावत्पर्यन्तम् सीदन्ति मम गात्राणि सीदन्ति अत्रापि तद्यथा मया उक्तं सीदन्ति सीदति सीदन्ति तत्र शद विशरणगत्यवसादनेषु कम्प्लीट्ली ड्रेन् आफ़् इति वदामः सीदन्ति मम गात्राणि गात्राणि इत्युक्ते शरीरस्य सर्वाणि अङ्गानि सीदन्ति मुखं च परिशुष्यति मुखं परिशुष्यति शुष्कः भवति शुष्कं भवति वेपथुश्च वेपथुश्च शरीरे मे रोमहर्षश्च जायते वेप वेपथुः Uh, इत्युक्ते तत्र uh, रोमाञ्चकारि इति तत्र कम्पनम् इति वक्तुं mm -hmm. शक्नुमः शेकिङ्ग् आफ् mm बाडि -hmm. uh, mm -hmm. वे च शरीरे मे रोमहर्षश्च जायते mm -hmm. एतावत्पर्यन्तम् इति स्थितिः तस्य आसीत् yeah. हा परमं विषादं प्राप्तवान् अत्र पश्यन्तु संक्षिप्तरूपेण कथं दत्तमस्ति परमं विषादं mm -hmm. न केवलं दुःखम् तत् विषादं परन्तु परमं विषादम् एते सर्वे मम बान्धवाः अतः अत्र भगिनी तत्र सर्वान् बन्धून् अवस्थितान् इत्युक्ते आर्डर्डि अरेञ्ज् इत्युक्ते युद्धस्य कृते ते सर्वे सज्जाः कस्यापि मनसि एषः विचारः एव न आगतः कथं वयं युद्धं करो कथं युद्धस्य समान कथम् एतत् सर्वं भवितुम् अर्हति मम बान्धुः मम बन्धुः अस्ति मम पुरतः मम mm. श्वशुरः अस्ति मम पुरतः मम पुत्रः अस्ति मम आचार्यः मम पितामहः परन्तु कोऽपि न चिन्तितवान् सर्वे सज्जाः युद्धस्य कृते mm. हा इति mm. एतावत्पर्यन्तम् अहं मन्ये समयः हा अस्ति तत् किञ्चित् अग्रिमे अपि हा हा अधुना वृसं तत् मम गात्राणि तत्तु अग्रिमे किं भवति तत् अग्रिमे भारतमहोदय पठति वा संस्कृते संस्कृते तः पठति वा संस्कृते संस्कृते हस्ततश्चापो जायन्ते तन्नो mm -hmm. uh, मनो भ्रमति ते तेनासौ रथे नैवा नैवावतिष्ठते mm -hmm. uh, वृषजत्यात्मनश्चाश्चापं mm -hmm. तत्रैवोपविसत्य mm -hmm. पुनश्चावेक्षते सर्वान् mm -hmm. तेन खेदो खेदोभिवर्धते mm. पश्चात्प्रश्चात्प्रभासते पस्चाद्प कृष्णं mm. राज्यं भोगं सुखानि च न काङ्क्षे न च वा अधुना का सिति हस्ततः षष्ठश्लोकः स्रंसते हस्ततः चापः वेपथुः जायते तनौ हस्ततः चापः स्रंसते चापः इत्युक्ते किं भारतमहोदय आम् आम् सत्यं सत्यं योग्यं तत् स्रंसते इत्युक्ते तत्र पतनं भवति तस्य हा चापः चापस्य धनुषः पतनं भवति वेपथुः तत् कम्पनं तनौ तनु इत्युक्ते शरीर शरीरे कम्पनानि कम्पनं वेपथुः जायते तनौ मनः भ्रमति मनः भ्रमति भ्रमितावस्थायां Mm -hmm. सौ रथे न एव अवतिष्ठते अधुना रथे न एव अवतिष्ठते तत्र रथे सह न तिष्ठते न स्थातुं शक्तः सह कुत्र रथे सह mm -hmm. रथे सज्जा सज्जः आसीत् परन्तु अधुना मनः भ्रमति मनः भ्रमति मनः स्थिर मनः स्थिरः नास्ति अस्थिरावस्थायाम् अतः तत्र स्थातुं न शक्यते विसृजति आत्मनः चापं विसृजति इत्युक्ते जस्ट् मे निष्कासयति हा विसृजति आत्मनः आत्मनः इत्युक्ते स्वस्य विसृजति विसर्जनं करोति इत्युक्ते इति mm. mm. आत्मनः स्वस्य चापं तत्र एव उपव उपविशति अयं तत्र एव उपविशति इत्युक्ते किं महोदय तत्र उप... तत्र इत्युक्ते कुत्र रथ रथ उपरि सः आसीत् खलु तत्र एव उपविशति इत्युक्ते तत्र एव सः स्थातुं न शक्नोति तत्र एव हि सेक्डौन् रथ इट्सेल्स् इन् रथ इट्सेल् तत्र एव उपविशति अयम् अयम् इत्युक्ते सः पुनश्च अवेक्षते पुनश्च अवेक्षते इत्युक्ते पुनः पुनः सः पश्यति सर्वान् सर्वान् पुनः पुनः पश्यति सर्वान् इत्युक्ते के जनाः पितामहः आचार्यान् पश्यति शिष्यान् पश्यति अन्यान् गुरून् पश्यति पुत्रान् पौत्रान् मातुलान् सर्वान् पश्यति तेन खेदः अभिवर्धते इत्युक्ते किं खेद् खेदः अभिवर्धते खेद वर्धते अभिवर्ध आम इ खेद जायते इतोपि वर्धन दुखमग्न अवस्था शोकमग्न अवस्था शोकत अवस्था पशा प्रभाषते अ पशन योजना एक संिप्तु का्य विषय प्रतिभाशक्ति कवि प्रभाषते अ प्रभाषते भाषते इत्मनेपदी रूप पश्चात् प्रभाषते प्रकर्षेन वदति न केवलं वचनम् अत्र इतोपि तत्र अर्थदृष्ट्या इतोपि तत्र अर्थ किं वदामः तत्र इट् एन्हान्सिङ्ग् द पवर् प्रभाषते कृष्णं किं वदति राज्यं किं वदति वदतु राज्यं भोगं सुखानि च न आकङ्क्षते न च वान्भुज्ये भुज्ये बान्धवान् भोग उपभोग इति अर्थः भुज्यधातु न भुञ्जे न एव हन्मि बांधवान, हन्मिति बान्धवान् इत्युक्ते अहं बान्धवान् अपि बान्धवान् हन् तस्य भोगं न इच्छामि तत्र शोके यदि पठामः चेत् तत्र पश्यन्तु तत्र भवान् भवानेव पठति वा तत्र श्लोक नम्बर् 30, श्लोक नम्बर् 32. टु ओके थर्टि पठतु अनन्तरं तर्टि में में uh, no, र, न च शक्नोम्यवस्थातुं प्रमतिव च मे न तत्र गाण्डिवं संस्कृते तत् पठतु गाण्डिवं संस्कृते अनन्तरं न काङ्क्षे तत् पठतु तत् गाण्डिवं संस्कृते इस् न च शक्नोमि न च शक्नोमि एवं वा खलु गाण्डीवं श्रंसते हस्तात् इति न चतुं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 तत् राजेन गोविंद इम गोविन्द किं भोगैः जीवितेन इति अन्तिमतः सः वदति अत्र स्थितिः का गान्दिवं स्रोसते हस्तात् त्वक् चैव परिदह्यते त्वक् तत्र दाहनं भवति ह तत् त्वक् दाहनं भवति तस्य परिदह्यते hmm. न शक्नोमि अवस्थातुं भ्रमतिव च मे मन मम मनः स्थिरः नास्ति अधुना अन्तिमतः स वदति न काङ्क्षी विजयं कृष्ण अहं विजयं न इच्छामि हे कृष्ण अहं विजयं न इच्छामि अहं राज्यं न इच्छामि अहं सुखानि न इच्छामि, इच्छामि. इच्छामि. इच्छामि. किं नो राज्येन गोविन्दः किं भोगैर्जीवितेन वा एतादृशं जीवनम् एतादृशभोगलालसा एतादुर्ष एतादृशी भोगप्राप्ति तेन किं भवति अस्माकं अर्थः किमपि सत्यांश एव तत्र नास्ति अधुना अन्तिमश्लोक नम्बर् फोर्टि 47, सञ्जय वाच तत् पठति वा एवमुक्त्वा अर्जुनः वा या लास्ट् वन् फोर्टि सेवेन् ओके सञ्जय उवाच एवम् अर्जुनः सङ्ख्ये रथोपस्थ उपाविशत् विसृज्य सशरं चापं शोकसंविघ्नमानसः एतत् सर्वम् अभवत् शङ्खे युद्धे रथोपस्थ रथे एव तत्र एव उपाविशत् विसृज्य सशरं चापं चापम् चरसहितचापम् चरसहितचापम् एरोज् शरश्चरसहितचापं विसृज्य तस्य विसर्जनं कृतवान् शोकसंविघ्नमानसः शोकेन अन्वितः मानसः सः तत्र एव उपाविशत् इति प्रथमे अध्याये अन्तिमः श्लोकः अधुना अस्ति अर्जुनस्य विषादयोगः अन्तिम प्रथम अध्याय अर्जुनविषादयोगः समाप्तम् अधुना अग्रे भगवता वचनानि एतत् सर्वम् वयम् अग्रिमे वर्गे पठिष्यामः तथैव कुर्मः अग्रिमे वर्गे अपि अग्रिमे यत्किमपि अस्ति तत्र संक्षिप्गीता अनन्तरम् गीता गीताप्र गीता गीता, गीता, गीता उपदेशप्रसङ्ग गीतोपदेशप्रसङ्ग तदपि पठामः श्लोकान् अपि आधारीकृत्य पठनम् कुर्मः अस्तु अस्तु अधुना hmm. कथायाः पठनं वयं न कृतवन्तः परन्तु अहं मन्ये तत् अध्यायस्य पठनमपि आवश्यकम् एवं खलु योग्यम् वदामि अद्यैव स्वरूपतया गीतासोपानम् इति दृश्यते सत्यं सत्यं बहु मम तथैव चिन्तनमासीत् भगिनी बहु सम्यक् भवती अवग अवगतवती तत् मम आनन्दः तत्र उत्तमं सत्यं सत्यं सर्वे सर्वे औगस्टुमहोदय अपि आगतवान् आसीत् तद्दिने सर्वे अम्बिकापतिमहोदयः अपि अस्ति गत् गीताभगिनी रमा भगिनी न आसीदिति तत्र अस्तु अस्तु अस्तु अम्बिकापतिमहोदय भवान् वदति वा शान्तिमन्त्रं वदति वा कृपया स्वस्ति प्रजाप्यः परिपालयन्ताम् न्यायेन मार्गेण महीम् महिषाः गोब्राह्मणेभ्यो शुभमस्तु नित्यम् लोकाः समस्ता सुखिनो भवन्तु ॐ शान्तिशान्तिशान्तिः श्रीगुरुभ्यो नमः हरिः ओम् धन्यवादः पुनर्मिलामः अग्रिमे बुधवासरे पुनर्मिलामः धन्यवाद